गणेशपुराणम् उपासनाखण्डम् अध्यायम् फोर् जादृभिषेके राजासौ चकार द्विजपूजनं मणिमुक्ताप्रवालानि ददौ साङ्गं गवायुतं तोषयामास सर्वांस्तान् गजगोश्वतनां शुकैः नानादेश्यानि वासांसि सुवर्णान्तरितानि च नानावर्णानि काश्मीरदेशजानि महान्ति च राजभोराजपत्नीभ्यो ग्राममुख्येभ्य एव च गुणिभ्यश्च ददौ राजा यथार्हतः अमात्येभ्यो ददग् अन्यान् ग्रामान् बहुधनान्यपि तदौ वनं ययौ राजा दुःखशोकसमन्वितः पूर्वजन्मार्जितैर्दोषैरत्यन्तमलिनो शुचिः तस्मिन् प्रयादे लोकानां महा हाहाकारो महानभूद स्वं स्वं कार्यं विहायैव प्रतिजग्मोर्जनाधिपम् अमात्या राजभार्याश्च हेमकण्ठसुहृद्वृतः उत्तिष्ठन् प्रपत्तन्यातस्त खलन्तावन् रुदन्नपि अमात्या नागरास्तन्तु दुःखिता अप्यवारयन् गव्युदिद्विदयम् गत्वा तस्थौ राजाश्रमान्विदः दृष्ट्वा वापीं शीतजलां नानावृक्षसमन्वितम् उवाच नागरान् सर्वानमात्यान् स्वजनानपि अपराधं मया यद्यच्चिरं राज्यं प्रकुर्वत तत्क्षन्तव्यं नमाम्येष बद्ध्वोऽचलिपुडं जनाः कृपाविधेया पुत्रे मे यदि दैवात् समागते विज्ञापयामि वः सर्वान् मयि स्नेहो नहीयदां गच्छन्तु नगरं सर्वे सस्त्री वृद्धाः समागदाः। पुत्रेण पाल्यमाना मे तिष्ठन्तु विगदज्वराः अनुजानं तु मां सर्वे शुचितोयाम्यहं वनम् युष्मा सुदुःप्रयातेषु मनो मे निश्चलं भवेत् उपकारं महान्तं मे कुर्वन्तु कृपया किलाः दुःखितो निष्ठुरं वक्तुं मर्तुकामोऽपिनोत्सहे महत्पापं मयै वैदज्जन्म जन्मान्तरार्जितम् यद्वियोगो हि राज्यस्य लोकानां हितकारिणां परन्तु किं करोम्येष यद्गलत्कुष्टवानहं सर्वोऽपि स्वकृतं भुङ्कृ सुकृतं दुष्कृतं तथा सुत उवाच युधि श्रुत्वा वजो राज्ञो मूर्चिता सुदस्त ग्रंथ केजिपल शिरासी भृशदुखिद केजिपरस्परंच क्रुरभिज्ञा पंडिताशं पूर्वजाता नृपाण चरित नृपे अनेच्यामस् ं तत्समीक्ष्येयुरथा परे यथा स्वरूपे विज्ञाते योगिनो ज्ञानरत्तयः दुःखितं सोमकान्तं तं वनं गन्तुं समुत्सुकं नियम्यदुःखं धैर्येण धीरा केजिदधा ब्रुवन् जनाऊजुः पोषयित्वा पालयित्वा ननस्त्वं त्यक्तुमर्हसि यथा न त्यजते शैत्यं जलमुष्णन्तनूनपाद मर्यादां जलधिर्वापि सूर्यः कथं वा नगरं यामस्त्वां विना जनवत्सल यथोडुपदिनाहीनं व्योमतारान्वितं नृप पुरं तद्वन्नशोभेद त्वां विना शत्रुकर्षण स कैवयामस्तीर्थानि द्वित्राणि वयमप्युद रूपम् ते कान्तिमत्कान्तभविदा तीर्थसेवनाद तद सहैव यास्यामो नगरम् ध्वजसङ्कुलम् हर्षेण महदायुक्ता वाद्यबन्धिपुरःसराः सूत उवाच इति तद्वचनं श्रुत्वा क्रोधदुःखसमन्वितः उवाच राजा तान्नत्वा मैवमैवं पुनः पुनः तदो ब्रवीद्धेमकण्ठसामात्यो वत्सलं नृपं स्नेहकारुण्यभावेन विनयेन समन्वितः पुत्र उवाच विना त्वां नोत्सहे गन्तुं कर्तुं राज्यं च जीवितुं न दृष्टपूर्वस्ते विरहस्तं कथं सहे राजोवाच ये तदर्थं मया पूर्वं धर्मशास्त्रं सुनीति मद उपदिष्टं तव शुभं न वृद्धा कर्तुमर्हसि श्रूयते जामदग्न्येन जननी निहदा पुरा पितृवाक्यानुरोधेन निदिज्ञेन सुधीमता रामस्तु राज्यं त्यक्त्वैव वनं व्याधः सहानुजः अपृष्ट्वा कारणं सीतां तत्याजलक्ष्मणो वने हेमकण्ठपुरं शीघ्रममात्या स्त्रिभिरन्वितः अधो ममाज्ञया गच्छ कुरु राज्यं मयार्पितं विज्ञे यथा चित्तं तस्य परात्मनि यथावस्थापिते वित्ते चित्तं लोकस्य वर्तते तथा मयि वनं यादे स्वान्द मे त्वयि वर्तते दैवयोगेन सुभगो जादो यास्ये पुनर्गृहम् भविष्यदि तथा धर्मो मद्वाक्यं कारिणस्तव न तथा सहयातेन तस्माद्गच्छ व्रजामि त उवाच अमात्यानागरापुत्रः प्रयातुं कृतमानसाः कष्टेन महदा युक्दानमश्चक्रोर्नृपं तदा अनज्ञातास्तदस्तेन आशीर्भिर्भिनन्द्य च प्रदक्षिणीकृत्य नृपं निवृत्ता नगरं प्रति अग्रे कृत्वा महासेनां गजाश्वरथपत्तिनां चत्रध्वजयुधोमानी हेमकण्ठोगमत्पुरीम् इति श्रीगणेशपुराणे उपासनाखण्डे चतुर्थोऽध्यायः ओ